अग्नाविष्णौ सुजौषसेमावर्थम् तु वाङ्गिरः निम्नयेर्वाचभिरागतम् स्तमे प्रजतिष्टमे प्रजतिष्टमे धीतिष्ठमे क्रतुष्टमे श्लोकस्तमे श्रावस्तमे श्रमे ज्योतिष्टमे शुभस्तमे प्राणस्तमे बाणस्तमे ज्ञानस्तमे चित्तञ्च महाधितञ्जमे वाच्च मे मनस्तमे चक्षुष्टमे श्रोत्यञ्चमे रक्षस्तमे पलं च मोधश्च मे सहस्तम आयुष्टमे मे सम्मज मे वर्मच मे अङ्गानि च श्र्येष्ठं च माधिपत्यञ्चमयमञ्जष्टमय भामश्चमयमष्टमय अम्भश्चमय हेमाय मे महिमा च मय वरिमाज मय प्रथिमाज मय वस्माच मे इन्द्राघुजाज मय वृद्धंजमय वृद्धश्च मय सत्यञ्च मय श्रद्धा च मय जगच्च मय धनं च मय मे सुगन्ध मे सुभञ्जम लद्धं च मलुध्यष्ट मे यष्टमे प्रियञ्चमेऽनुकामश्चमे कामश्चमे सौमनसष्टमे भद्रञ्चमे श्रेजष्टमे वस्त्रश्चमे दशस्तमे भगश्च मे द्रविणञ्च मे दन्दाच मे चन्दाच मे क्षेमस्तमे त्रजश्चमे विश्वञ्चमे महस्तमे संविच्च मे ज्ञात्रञ्चमे सोष्टमे श्रीलञ्च मे लगश्च मृतञ्च मे ञ्ज मे भज मे सुखं जमे शगनञ्ज मे सुखाच मे सुजनं च भोचमय श्च मे खल्वाश्चमे गोधूमाश्चमे मधुराष्टमे पियङ्गवश्चमे नवश्चमे श्यामाराश्च मे नीवाराष्टमे स्मा च मे मृत्तिका च मे गिरजश्च मे पर्वताश्च मे श्रीकृताश्च मे वनस्पदयश्च मे हिरण्यं च मे यश्च मे श्रीसञ्च मे त्रपुश्च मे श्यामञ्च मे लोहञ्च मे घ्निश्च महापश्चमे विरुधश्च मोषधयश्च मे कृष्ण्यञ्च मे कृष्ण मे भोजश्च मे वस च मे वधनिष्ट जगत च च मर्यामस्त मरिदुष्ट मगदिष्टमे अग्निश्च मरीन्द्रस्त मे सोमश्च महीन्द्रस्त मे सविता च मलिन्द्रस्त मे सरस्वती च मरीन्द्रस्त मे घोषा च मलिन्द्रस्त मे बृहस्पतिश्च मरीन्द्रस्त मे मित्रश्च मरीन्द्रस्त मे वरुणश्च मरीन्द्रश्च मे मलीन्द्रस्य मे दिशश्च मलिन्द्रस्य मे मोर्था च मलिन्द्रस्त मे प्रजापतिश्च स्त मे रश्मिस्तमेपागुं सुस्तमेन्द्रवाधवस्त मे मेन्द्रावरुणश्चिनस्त मेष्टमे शुक्रस्त मे मन्थेतश्च मे वैश्वदेवस्त्रवश्च मे वैश्वामरस्तमग्रहाश्रमे दिव्याश्रस्तमेव स्वत मे बहुष्ण से मे बातस् ष्टमे वर्हिष्टमे वेदष्टमे धृष्कृष्टमे सुजामे तमसाष्टमे ग्रावाणाष्टमे स्वरवश्चम उपरवाश्रमे धृजमेशश्च मे वायुल्यालम आधवनीलश्चम आग्नेभे गृहाष्टमे पुरोडाशाष्टमे भजताष्टमे स्वगाकालष्टमे अग्निस्तमे धर्मस्तमेकश्चमे सूर्यस्तमे प्राणस्तमेश्वमेधस्तमे पृथिवे च मे दिदिष्टमे दिदिष्टमेज्ञोष्टमे चत्वरे रङ्गुलजो दिषस्तमे यज्ञेन कल्पम् तावृक्षमे शामच मे स्तोमस्तमे यजुस्तमे दीक्षा च मे तपश्च मुतुष्टमय प्रपञ्चमे होरात्रयोर्वृष्ट्याभिहतम् परे च मे जज्ञेन कल्पेता श्च मे वत्साष्टमे त्र्यविष्टमे त्र्यबीज मे द्विध्यवाच्य मे दृत्यौ हे च मे पुञ्चाविष्टमे पञ्चाबीज मे त्रिवत्सस्त मे त्रिवत्साधमे दुर्यवाच्य मे दुर्ज्यौहेज मे चक्षुरुज ज्ञानकल्पदा गच्छास्त्रे ज्ञानकल्पदा मनोरि ज्ञानकल्पदा महायज्ञानकल्पदा महात्मारि ज्ञानकल्पदा यज्ञाल ज्ञानकल्पदा एकाद मे त्रिस्रष्टमे पञ्चतमे सप्तच मे नव च मदेकादशतमे त्रयोदशतमे पञ्चदशतमे सप्तदशतमे सच्चमे त्रिवम् सत्यमे क्षत्रियम् सत्यमे चत्वारिकम् सत्यमे चरश्चत्वारिकम् सत्यमेष्टाचत्वारिकम् सत्यमे वाजस्य प्रथमश्चाभिजश्चक्रतुश्च सुवश्च मोर्धाचौ यस्नेहश्चान्यश्च भौवनश्च भुवनश्चाधिपतिश्चेवा वाच प्रथिभिधर्वामायकम् देवम् मधु मनुष्ये मधुजनिष्ये मधु वक्ष्यामि मधु मनिष्यामि मधु मदेयम् देवेभ्यो वाचमुद्याचकम् शुश्रोषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु सौभाग्यै पितरो नु मदन्तु ॐ